श्रीहरये नमः अत एकविंशोऽध्यायः श्री उवाच विततस्य सुतो मन्योर्बृहच्छत्रो जयस्ततः महावीर्यो नरो गर्ग संकृतिस्तु नरात्मजहां गुरुश्च रन्तिदेवश्च संकृते पाण्डुनन्दन रन्तिदेवस्स हि इहामुत्र च गीयते वियद्वित्तस्य तधवो लब्धं लब्धं बुभुक्षतः निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीधतः व्यतीयुरष्टचत्वारिंशत् अहानि अपि भदत् किल घृतपायससंव्या प्राप्तकुटुम्बस्य शुद्रुप्यां जातवोपथोः अतिथिर्ब्राह्मणकाले भोक्तु कामस्य चागमत् तस्मै संव्यभजत् सोन्न माधृत्य श्रद्धयान्वितः हरिं सर्वत्र भुक्त्वा प्रययौ द्विजः अथान्यो बोष्यमाणस्य विभक्तस्य महीपते विभक्तं व्यभजत्तस्मै वृषलाय हरिं स्मरन् या शूद्रे तमन्यो गत् अतिथिस्वभिरावृतः राजन्मे दीयतामन्नं सगणाय बुभुष्यते स आतृत्यावशिष्टं यत् बहुमान पुरस्कृतं तच्च पानीयमात्रमुच्चेषं तच्चैकपरितर्पणं पाशतःफुल्कशोभ्य घातपो देह्यशुभस्य मे तस्य तां करुणां वाचं निसंव्यविपुलश्रमां कृपया भृशसन्तप्त इह माहामृतं वचः न काम एवं अपुनर्भवं व आर्तीं प्रभत्ये किल देहभाजाम् अन्तस्थितो येन भवन्त्य दुःखाः षुड्रश्रमो गात्रपरिश्रमश्च धैर्यं क्लमशोकविषादमोहाः सर्वे निवृत्ता कृपणस्य जन्तोर्जीविभीषोर्जीवजलार्पणान्मे इति प्रभाष्य पानीयं म्रियमाणः पिपाशयान् पुल्कषाय अधधा धीरो निसर्गकरुणो तस्य त्रिभुवनाधीशा फलधा आत्मानं दर्शयाञ्चक्रुर्माया विष्णुविनिर्मिताः स वैतेभ्यो त्यनिस्सङ्गो विगदस्पृहः वासुदेव भगवति भक्त्या चक्रे मनःपरम् ईश्वरालम्बनं चित्तं कुर्वतो नन्द्य राधसः मायागुणमयी राजन् स्वप्नवत्प्रत्यलीयत तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः अभवन् योगिनः सर्वे नारायणपरायणाः गर्गाच्चिनिस्ततो गार्घ्यक्षत्राद्ब्रह्मच्यवर्तत दुरिदक्षयो महावीर्यात्तस्य त्रय्यारुणि कविः पुष्करारुणित्यत्र ये ब्राह्मकणगतिं गताः बृहक्षत्रस्य पुत्रोऽभूत् हस्ति यत् हस्तिना पुरम् अजमीढोद्विमीढश्च पुरुमीढश्च हस्तिनः अजमीढस्य वंश्याश्रु प्रियमेधातयो द्विजाः अजमीढाद्बृहदिशो तस्य पुत्रो बृहत् धनुः बृहत् कायस्तधस्तस्य पुत्र आसीजयध्रतः तत्सुतो विसधस्तस्य सेनजित्समजायतां रुचिरास्वो दृढहनुः काश्यो वत्सच्च तत्सुताः रुचिरास्व सुतः प्राज्ञः पारः पृथुनेनस्तधात्मजहान् पारस्य तनयोनीपस्तस्य पुत्र सतं त्वभूत् सकृत्यां ब्रह्म अजीजनते अजीजनत स योगी कविभार्यायां विष्पक्सेन मधात्सुतं जैकीशव्योपदेशेन योगतन्त्रं सकारः उदक्स्वनस्तदस्तस्मात् भल्लाधो बार्हदीशवाह यवीनरो द्विमीढस्य कृतिमांस्तस्थुतः स्मृतः नाम्ना सुपार्श्व सुमतिस्तस्य पुत्रसन्नधिमांस्ततः कृतिर्हिरण्यनाभाद्यो योगं प्राप्य झघौ स्म षट् वै नीपो ह्युग्रायुधस्ततः सुवीरस्य रिभुञ्जयः ततो बहुरथो नाम पुरमीठो प्रजोऽभवत् नळिन्यामझमीढस्य नीलश्शान्तिसुतस्ततः शान्ते सुशान्तिस्तत्पुत्रपुरुजोर्गस्ततोभवत् भर्म्या स्वस्तनयस्तस्य पञ्चासन्मुद्गलादयः यवीनरो बृहधिशो काम्पिल्यसञ्चयः भर्म्या स्वप्राक् पुत्रा मे पञ्चानां रक्षणायहि विषयाणामलमिति पञ्चालसञ्जितागलात् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्य सञ्जितं मिथुनं मुद्गलात् भार्म्यात् सतानन्दस्तु गौतमात् तस्य सत्यधृति पुत्रो धनुर्वेदविशारदः शरद्वान् तत्सुतो यस्मात् उर्वशी दर्शनात् किल तदभूच्छुभं तद्दृष्ट्वा कृपया गृह्णात् सन्तनुर्मृगयां चरन् कृपः कुमारकन्या इति श्रीमद्भागवते महापुराणे नवमस्कन्ते एकविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मकराजकी जय